ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे एकविंशोऽध्यायः श्रोत उवाच एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपः अन्तकेन सन् क्रुद्धो धनं संयाचितुं म्बालोक्य हरिश्चन्द्रः पपातः भुवि मूर्छितः स्ववारिणाक्षुभ्युक्ष्य राजानम् विदमब्रवीत उत्तिष्ठोत्तिष्ठ राजेन्द्र सान्द्रेष्ठदक्षिणां ऋणं धारयतां दुःखम् अहनि अहनिवर्षते आप्यमाण सदा हिमशीतेन वारिणा अवाप्य चेत् नाम राजा विश्वामित्रमवेक्षते पुनर्मोहं समाप्यते यथ क्रोधं ययो मुरिः समाश्वास्य च राजानम् वाक्यं महद्विजोत्तमः विश्वामित्र उवाच दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षते सत्यनार्कः सत्य ऋषति मे दिने सत्य प्रोत्त पर अश्वेध सहस्रं तो सत्युत अश्वेध सहस्राधि सत्यमेक विशिष्ट अथवा कि मम तेनाली प्रोक् नास्त प्रयोजन मदीया दक्षिण न दास्यति भवान् यदि अस्ता च जगतेर्यर्के शप्यामि तामतो ध्रुवम् इत्युक्ता विप्रो राजा चासि भयातुरः दुःखीभूतो वनो निस्थो दृशन्तः मुनिना दिसः सूतवाच उवाच तत्रे तत्र ब्राह्मणो वेद ्राह्मणैर्बहुभिषादं निर्ययोस् गृहाद् बहिः ततो राज्ञी तु तं दृष्ट्वा अयन् सन्तापसंस्थितम् उवाच वाक्यं राजानम् धर्मार्थसहितं ददा त्रयाणामपि वर्णानां पिता ब्राह्मण उच्चते पित्रो द्रव्यं हि पुत्रेण गृहीतव्यं न संचयहे तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः राजोवाच नाहं प्रतिग्रहं काङ्क्षी क्षत्रियोऽहं सुमध्य मे याच याचनं कल्पविप्राणां क्षत्रियाणां न विद्यते गुरुर्हि विप्रोवर्णानां पूजनीयोऽति सर्वदा तस्मात् गुरु न याचर्चात् क्षत्रियाणां विशेषतः यजनाध्ययनं दानं क्षत्रि शरणागतानामभयं प्र न चाप्येवं तु वक्तव्यम् देहि श्रीकृपणं वचः दयामित्येव मे देवि हृदये नैतं वचः अर्जितं कुत्रचित् द्रव्यम् ्राह्मणाय ददाम्यहम् काले समविषमकरे करे, सम्मानमानदे काल हे काल करोति पुरुषं दातारं याचितारं च विप्रेण विदुषा राजा क्रुद्धे नातिबलीयस राजानीरस्तसौख्या च पश्य कालस्य चेतितम् राजोवाच असि नापि वरम परं जिह्वाद्विधा कृते नतमानं परित्यज्य देहि देहि विभाषितं क्षत्रियोऽहं महाभागे न याचेत् किञ्चिदप्यहं ददामि वाहं नित्यं धनं पत्नी उवाच यदि महाराज याचि त्वं न क्षमं मनः देवे तु न्यायतो दत्ता देवैरपि सवासवैः अहं शास्या च पत्न्या च रक्षा चैव महाद्युते मन्मूल्यं सङ्गृहीत्वाथ गुर्वर्थं सम्प्रदीयताम् एतद् वाक्यम् कष्टं कष्टं चेप्रोच भार्या च भूय प्रहेदं क्रियतां वचनं मम विप्रशापाग्निदग्ध त्वाच त्वम् उपयास्यसि न द्यूत नद्यूतहेतो न च मध्यहेतो न राजहेतो न च भोगहेतो दरस्य गुरुवथमतो मया त्वम् सत्यव्रत त्वं सफलं गुरुष्वे इति श्रीमद्देवी भागवते महापुराणे चादृशं संहितायां सप्तमस्कन्धे हरिचन्द्रोपाख्यानवर्णनं नाम श्री हे श्रीजगदम्बिकायार्पणमस्तु